आयुष्य सूक्तम् ओ य ब्रह्मा ब्रह्मण उज्जहार प्राणे शिरकृत्ति वा पिनाति मः सलहायर्दधातु तस्मै जुहामिह मिषा कृतेन बिभ्राजमानः शरीरस्य मज्जाद्वचमान समृत्यपाशा न पनद्य घोरा नियुषेन कृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्मभक्तेषु दे गर्भयमाददात् पुनरोपञ्जयन्तम् सुवर्णरम् भग्रहमर्घमच्चमायुषे वर्धयामा कृतेन श्रियम् लक्ष्मी मौबलाम्बिकाङ्गाम् षष्टेञ्जयामिन्द्रसेनेत्युदाहोः राम् विद्या स्वरूपामि हायुषे दप्पयामा कृतेन प्राक्षायण्यः सर्वयान्यस्य यान्यः सहस्रो विस्वरूपा निरूपाः स सो नव सपदयस्य योज्यानुषमिलन्तु घन्ताम् दिव्यागना बहुरूपा पुराणा आयुष्यदो न प्रमथन्तु वीरान् ते व्याजुहामि बहुधा कृतेन प्रजागम् वे ऋषो वादवीराले एक पुरस्ताद्ययितम् बभू वयतो बभो बभुवनस्य गोपाः यमप्येति भवनगम् साम् पराय सनाह निर्घृतमिहायुनेत्तु देवः वसान् वृद्रा नान् मरुदसाद्यान् ब्रभान् गन्धर् पादिष्याम् गिरजात सर्वाम् मृतम् हृत्वा श्वायिष्याम हयाम शश्वते वेष्ठात्पन्ना अन्तमः शर्म प्रते धारा मधुस्वध वत्सन्द कृते